मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायम् तर्टि मार्गशीर्षकृष्णचतुर्थी माहात्म्यवर्णनम् श्रीगणेशाय नमः दशरथ उवाच मार्गशीर्षे च कृष्णायाश्चतुर्थ्या वदमानद माहात्म्यं सर्वदं स्वामिन् येन तृप्तो भवाम्यहम् वसिष्ठ उवाच इतिहासं पुरावृत्तं कथयामि सविस्तरं राजा बभूव तेजस्वी हरिश्चन्द्रः प्रतापवान् अयोध्यायां स्थितः सोऽपि नानाद्धर्मपरायणः सदा सद्गुणसंयुक्तो यज्वा कर्मपरायणः यद्यच्च याचते विप्रस्तद्ददादि स हर्षतः तस्य पुण्येन तुल्यं तु न बभूव धरातले तदश्चलयितुं योगी विश्वामित्रः सर्वराज्यं नृपस्यैव जगृहे धनमार्गदः राज्यभ्रष्टं नृपं कृत्वा परप्रान्त्ये गतं पुनः नानामिषेण तं तत्रा चलयन्मुनिसत्तमः ततसोऽपि नृपोऽत्यन्तं धर्मयुक्तो बभूवः न च चालादिदुःखेन संयुग्धपरमार्थविद तत्रैकदा चतुर्थी स मार्गशीर्षे समागदाः समागताः कृष्णा नृपः क्षुधायुक्तो बभूवतृषयायुधः चलितो मुनिनात्यन्तं ततश्चन्द्रोदयो भव तत्रान्नं भक्षयामास राजेन्द्रो दैवयोगदः पञ्चम्याम् बुद्धिः सम्भेदो विश्वामित्रस्य चाभवत् तत् ज्ञात्वा योगी विचचार स्वचेतसि तदस्तेन व्रतं तत्र ज्ञातं राज्ञा कृतम् अहत प्रत्यक्षं वरदो भूत्वा हरिश्चन्द्रमुवाचः कुरुराज्यं महाबुद्धे शृणु परमं वचः तवराज्ये राज्ये च दुर्बीजं व्रतं नष्टं बभूवः तेन त्वं पीडया युक्तः प्रजातोऽसि अहं सङ्क्षुभिदो वापि तदर्थं नात्र संशयः सर्वादौ तद्व्रतं कार्यं चतुःपादप्रदं नृप नित्यवन्नात्रसन्देहसर्वसिद्धिप्रदायकं त्वया नानाविधं पुण्यं कृतं विधियुधम् महद तत्सर्वं निष्फलं जातं व्रतहीनप्रभावधः जनै सर्वैर्महाराज नरके नरकेत्वं पदिष्यसि त्वया कृदं कृतं व्रतं मुख्यमधुना ज्ञानदो महद तेना सम्प्रीतिसंयोक्तकृतो वै राजसत्तम तत्कुरुष्वमहीपाल जनैः सौख्यमवाप्स्यसि एवमुक्त्वा ददौ तस्मै मन्त्रमष्टाक्षरं मुनिः सविधिं गणनाथस्य सोपितं पुनरब्रवीद हरिश्चन्द्र उवाच गणेशस्य स्वरूपं मे वद नमः व्रतस्यैव प्रभावं त्वं विधियुक्तं महामुने विश्वामित्र उवाच गणेश्वरस्य माहात्म्यं शृणु संक्षेपतो नृप एक एव गणेशोऽयं सर्वे तस्य गणास्मृताः मनोवाणीमयं विश्वं तदेव गणवाचकं नानाभावसमयुक्तं मया वक्तुं न मनोवाणीविहीनं यन्नाना ब्रह्मप्रवाचकं गणरूपं तु विज्ञेयं वेदे पश्य पश्यमहीपदे सिद्धिर्भ्रान्तिकरी प्रोक्ता बुद्धिर्भ्रान्तिधरा नृप ताभ्यां क्रीडति विघ्नेशचित्ते चिन्तामणिस्थितः म् भजस्व विधानेन तदा शान्तिमवाप्स्यसि राज्यकरुतापि वन्द्यस्त्वम् योगिनां प्रभविष्यसि चित्तम् पञ्चविधम् प्रोक्तं तत्र मोहश्च पञ्चधा समोहम् चित्तमुत्सृज्य चिन्तामणिर्भविष्यसि एवमुक्त्वा व्रतस्यैव माहात्म्यं मुनिपुङ्गवः श्रावयामास तस्मै तत्तत्तश्चान्दर्हितो भवद विश्वामित्रं गदं ज्ञात्वा राजा हर्षसमन्वितः अयोध्यायां ययौ नागरै नागरैः सह राजापि चकारव्रतमुत्तमं शुक्लकृष्णचतुर्धीजं गणेशभजनेरदः सर्वत्रैवं प्रशस्तं तद्व्रतं चकारहर्षदः भूमिसंस्था जन सर्वे व्रतं चक्रुर्विशेषदः नेन सदृशं किञ्चित् सर्वदं व्रतमुत्तमं तदो योगादिभिर्हीनो बभूवे कर्षसंयुधः राजा गणपतिं नित्यमभजन् नान्यचेदसा पुत्रे राज्यं विनिक्षिप्य शस्त्रीकश्च ययौवनम् तत्रैव गणराजं सोऽभजत् सुतपसा युतः शान्तिं प्राप्तो विशेषेण भवद्योगी पार्थिवः अन्ते स्वानन्दगो भूत्वा गणेशैलीनतां गतः एवं व्रतस्य माहात्म्यं कथितं ते जनन्दना जनाः सर्वे क्रमेणैव ब्रह्मभूता बभूविरे चतुर्थी व्रतजेनैव पुण्येन परमेण ते अन्यतृणुमहीपालमालवे नगरमहद कर्णा नाम च तत्रासीद्वेष्या नरविमोहिनी लोकान्सा हावभावेन मोहयामास तत्क्षणाद् नाना जना त्यक्त्वा नाजनास्वर्मं त्यक्ता भव तदात्मक स्वस्व परतज्यन्नीस्ते बभूवी मद्मा सरदा सर्वे नाधिपतास्तया ब्राह्मणादे भ्रष्टा जा शौर्यादिकर्मसंयुक्ता किं वदामि महामदे कथने परदोषाणां दोषी भवति मानवः यदादृशी तु सावेश्या पापरूपादिदारुणा नानाजनैर्युता राजन्नरके कृतनिश्चया न चकारापि नराणां मोहनेकदा एकदा ज्वरसंयुक्ता मार्गशीर्षे बभूव च चतुर्ध्यां कृष्णपक्षे सा भवद्दाहेन पीडिता पञ्चम्यां सा तत्र ब्रह्मभूता बभूवः व्रतस्यैव प्रभावेण पतितानां सहायिनी एवं नानाजनाराजन् ब्रह्मभूता बभूविरे तत्रते ते कदिवैभ्रूयां नालं, नालं वर्षायुधैरपि मार्गशीर्षचतुर्ध्यायन्माहात्म्यं कथितं परं पठनाश्रवण सर्वसिद्धिदम् भवदि ह्यः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते मार्गशीर्षकृष्णचतुर्थीमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ओ